मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं फोर्टि त्रि भानुविनायकचरितम् श्रीगणेशाय नमः आदिशक्तिरुवाच कश्यपश्य च भार्या सेद्विनतारूपशालिनी तस्यामण्डे समुत्पन्ने द्वेदीव तेजसायुते ताभ्यां ज्येष्ठोऽणो जज्ञे गरुडो नुज एव च अरुणः सूर्यमाराध्य वरं प्राप हितावहम् सारथिः सर्वैरासिन्नित्यं तद्भक्तिसंयुधः शयनन्यभावेन सूर्य आत्मानमच्युतं गणेशं नित्यमानन्दात् सूर्यो भेजे विशेषदः प्रणम्य सोऽपि पप्रचारुणस्थं खेद संयुदः अरुण उवाच स्वामिं स्त्वम् सर्वभावानामात्मा मृदमयः सदा एक एवाद्वितीयोऽसि भजसे कं गजानम् कोऽसौ कश्यपात्मज मोहम् करोषि देवेशस्वरूपच्छादनायते योगिनो देवमुख्याश्च त्वां ज्ञात्वा शान्तिमादधुः त्वत्तः परतरं नास्ति किमर्थं भजसे परम् सूर्य उवाच त्वया नूरो वेत्सि मां त्वं विशेषदः न त्वत्समो मदीयेदु योगे कोऽपि विशेषदः पूर्णभावमविज्ञायशान्तिं धृत्वा त्वमञ्चसा संस्थितः किमकम्भ्रूयामज्ञानं त्वां महायशः गणेशादहमुत्पन्नस्तस्यान्ये शङ्करादयः ज्येष्ठराज्यश्च तेनायं तस्य ज्येष्ठो न विद्यते असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः तयोः समानभावेत्वानन्दो विष्णुः प्रकीर्तिदः आनन्दाच्च परो व्यक्तशङ्करस्तुल्यसंज्ञां योगे गणेशानस्वानन्दाख्यः प्रकीर्तिदः सर्वसंयोगकर्तृत्वात्माया युक्तो गणेश्वरः स्वसंवेद्येन योगेन लभ्यतेरुणनिश्चितं तस्मात्परो ह्ययोगश्च स्वसंवेद्यविवर्धितः तयोर्योगे गणेशानु वेदे पश्य विचक्षण ब्रह्मणस्पदि वाच्योऽस्सौ वयं ब्रह्ममया किल अस्माकं गणराजस्तु स्वामी तस्माद् भजामहे एवं तस्य वचः श्रुत्वा नूलुस्थं प्रणनामः जगादभक्तिसंयुक्तसूर्यं तेजस्विनां पदिम् अरुण उवाच गणेशप्राप्तयेनाथ वदोपायम् सुसौख्यदं भवामि गाणपत्यश्च येनाहं देवनायकः सूर्य उवाच केकाक्षरविधानेन तं भजस्वदुकाश्यप हृदि चिन्तामणिं दृष्ट्वा योगी वन्द्यो भविष्यसि एवमुक्त्वा ददौ तस्मै मन्त्रं गणपदेः प्रभुः सविधिं तं प्रणम्यासौ जगाम वनमुत्तमं तताप तप उग्रं स गणेशध्यानतत्परः योगमार्गेण विघ्नेशं साधयामास तदो ततो योगीन्द्रवन्ध्य स योगसेवया चित्तं पञ्चविधं त्यक्त्वा रसयुक्दं जपेरदः एवं वर्ष सदेष्वेनं गदेषु द्विरदाननः आययौ वरदानार्थं भक्तिसम्भाविदः तदसोपि गणेशान्नं न बुबोधमः हृदिध्यानेस्य सम्लीनस्तत्रचित्रं चित्रं बभूवः संज्ञायुक्तं गणेशानां रधस्थं स ददर्शः पुनसिद्ध्या च बुद्ध्या दृष्ट्वा सुविस्मितः हृदि ध्यानं परित्यज्य नेत्रे उन्मील्यचारुणः अपश्यत् तं बहिः गणेशं वरदायकं ततोदि हर्षसंयुक्तः समुद्धाय ननामतं पुपूज विधिसंयुक्तस्तुष्टा वानम्यहर्षदः यावस्तोदुं समारेभे तावत् तं रथसंस्थितं रविं दृष्ट्वा विस्मयं परमं ययौ गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना गणेशोऽयं रविप्रोक्तो विकटत्वान्नसंशयः नानाभेदमयी तत्रात्मा भेदवर्जितः अतो विकटसंज्ञोयमात्माकारोगजाननः विकटरूपिणं सूर्यं भजिष्यामि निरन्तरम् कलांशं गणे राजस्य तेन तुष्ठोऽयमञ्जसा यदर्थं गणेशेन रूपं सूर्यात्मकं परम् स्वकीयाभेदभावाख्यं दर्शिदं नेत्रसम्पदं नेत्रो। बभूवः नियम्यात्मानमानन्दयुक्तस्तोत्रं प्रचक्रमे अरुण उवाच नमस्ते गणनाधाय तेजसाम्पदये नमः अनामयाय देवेश आत्मनेते नमो नमः ब्रह्मणां पदये तुभ्यं जीवानां पदये नमः आकुवाहनगायैव सप्ताश्वाय नमो नमः स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने चदुर्भुजधरायैव सहस्रकिरणाय च सिद्धिबुद्धिपदे तुभ्यं संज्ञानाधायते नमः विघ्नहन्द्रे तमोह्रे हे रम्भाय नमो नमः अनन्दविभवायैव माया मायालक सर्वेश सर्वपूज्यायते नमः ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने गणेशाय परेशाय विघ्नेशाय नमो नमः विवस्वदेवानवेते रवये ज्योतिषां पदे लम्बोदरैकदन्दाय महोत्कटाय ते नमः यत्सूर्यो विकटसोऽपि नभेदो भेदो दृश्यते कदा भक्तिं देहि गजास्य त्वं मे नमो नमः किं त्वौमि त्वां गणाधीशयोगाकारस्वरूपिणं चतुर्धाग् भज्य स्वात्मानं केलसि त्वं न एवं स्वस्य स्तुतिं श्रुत्वा रूपमादधे वामाङ्गे संज्ञयायुक्तं गजवक्त्रादिचिह्नितं तं दृष्ट्वा प्रणनामाधानूरुर्हर्षसमन्विधः तं जगादगणाधीशो वरं वृणु हृदीप्सितम् त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकं भविष्यदि न सन्देहश्चिन्ति स लभेत् परं शृणुयाद्वा जपेद्वापि तस्य भविष्यदि महापक्षिन् मम सन्दोषकारकम् गणेशवचनं श्रुत्वा नूरुस्तं प्रणिपत्यज जगादशाश्रुनेत्रः सन् सरोमाञ्चो गजाननम् अनूरुवाच भक्तिं देहि गणाधीश तव पादाम्बुजाश्रुतां गणपत्यप्रियत्वं मे सदा सङ्गं महात्मनां तथेदि तमथो ग्रुवासौ विकटोऽन्तर्दथे स्वयम् अनूरु केदसंयुक्तो भवत्तत्रैव संस्थितः तधः भानुविनायक इति नाम चक्रे सुहर्षितः पूजयित्वा गणेशान्नं सूर्यं समागदो भवद अरुणस्थं प्रणम्यैव वृत्तान्तं कधयत्परं परं तेनैव स्थापितं तत्रारुणो गणपतिं परम् अभजद्रथ संस्थश्च योगशान्तिपरो भवद एवं विकटमाहात्म्यं भानुविघ्नेशगं परं तदीयां शावतारस्थं कथितं सर्वसिद्धिदं शृणुयाद्यः पठेद्वापि श्रावयेद्वा नर किल स ईप्सितफलं प्राप्यान्ते स्वानन्दमवाप्नुयाद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भानुविनायकचरितं नाम त्रि चत्वारिंशत्तमोऽध्यायः ओम्